अथ श्रीमहाभारते आदिपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः वैशम्पायन उवाच वसत्सुतेषु प्रच्छन्नं पाण्डवेषु महात्मसु आजगामाथ तान् द्रष्टुं व्यासः सत्यवती सुतः तमागतमभिप्रेक्ष्य प्रत्युद्गम्यपरं तपाः प्रणिपत्याभिवाद्यैनं तस्थु प्राञ्जलयस्तदा समनुज्ञाप्य तान् सर्वानासीनान्मुनिरब्रवीत् प्रच्छन्नम् पूजितः पार्थै प्रीतिपूर्वमिदं वचः अपि धर्मेण वर्तेध्वं शास्त्रेण च परं अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवान् ऋषिः विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् व्यास उवाच आसीत्तपो वने काचिदृशेः कन्या महात्मनः विलग्नमध्या सुश्रोणी सुभ्रूः कर्मभिः स्वकृतैः सा दुर्भगा समपद्यत नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ततस्तप्तुमथा रेभे पत्यर्थमसुखा ततः स तपसा सा किलोऽग्रेण शङ्करम् वरं वरय भद्रं ते वरदोऽस्मीति शङ्करः अथेश्वरमुवाचेदमात्मनः सावचोहितं पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः तामथः प्रत्युवाचेदमीशानो वदतां वरः पञ्चते पतयो भद्रे भविष्यन्तीति भारताः येव एवमुक्ता ततः कन्या देवं वरदमब्रवीत् एकमिच्छाम्यहं देव त्वत्प्रसादात् पतिं प्रभो पुनरेवाब्रवीद् देव इदं वचनमुत्तमम् पञ्चकृत्व स्वया ह्युक्तः पतिं देहीत्यहं पुनः देहमन्यं गता यास्ते तद्भविष्यति द्रुपदस्य कुले जज्ञे कन्या देवरूपिणी निर्दिष्टा भवतां पत्नी कृष्णा पाश्यत्यनिन्दिता पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः सुखिनस्तामनुप्राप्या भविष्यथनसंशयः एवमुक्त्वा महाभागः पाण्डवान् च पितामहः पार्थानामन्त्र्यकुन्तीञ्च प्रातिष्ठतमहातपाः इति श्रीमहाभारते आदिपर्वणि चैत्ररथपर्वणि द्रौपदीजन्मान्तरकथने अष्टषष्ट्यधिकशततमोऽध्यायः